श्रीमन महाभारत आदिपर्ण विदुरागमनज्यलंबर्ण पुनिर्माणे षडिककशतमो अध्याय द्रुपद्वाच यम्राज यथ विदुराद्य मोहर्ष सम्बन्धेस्मिन् कृते प्रभो गमनञ्चापि युक्तं स्यात् दृढमेषां महात्मनां न तु तावन्मया युक्तमेतद्वक्तुं स्वयङ्गिरा यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ रामकृष्णौ च धर्मज्ञौ तथा गच्छन्तु पाण्डवाः एतौ हि पुरुषव्याघ्रवेषां प्रियहिते युधिष्ठिर उवाच परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयं वैशम्पायन उवाच ततो ब्रवीद्वासुदेवो गमनं रोचते मम यथा वा राजा द्रुपद सर्वधर्मवित् द्रुपद उवाच यथैव मन्यते वीरो दाशार्हपुरुषोत्तमः महा। प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम यथैव हि महाभागा कौन्तेया मम साम्प्रतं तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः न तद्ध्यायति पाण्डुपुत्रो युधिष्ठिरः यथैषां पुरुषव्याघ्रः श्रेयो केशवः वैशम्पायन उवाच पृथायास्तु तथा वेश्म प्रविवेशमहाद्युतिः पादौ स्पृष्ट्वा पृथायास्तु शिरसा देवरं कुन्ती शुशोच च मुहुर्मुहुः कुन्त्युवाच वैचित्रवीर्यते पुत्राः कथञ्चिजीवितास्त्वया त्वत्प्रसादाज्जतु गृहे त्राताः प्रत्यागतास्तव कूर्मश्चिन्तयते पुत्रान् यत्र वा तत्र वागतान् चिन्तया वर्धयेत्पुत्रान् यथा कुशलिनस्तथा तव पुत्रास्तु जीवन्ति त्वं त्राता भरतर्षभा यथा परभृतः पुत्रानरिष्टा, नरिष्टा वर्धयेत्सदा तथैव तव पुत्रास्तु मया तातसुरक्षिताः दुःखास्तु बहवः प्राप्ता तथा प्राणान्तिका मया अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि वैशम्पायन उवाच इत्येवमुक्ता दुःखार्ता शुशोच पर प्रणीपत माशोच इति भारत विदुर उवाच न विनश्य लोकेशु तव पुत्रा महाबला चिरेन कालराज्यस्थ बान्धवैः सहिताः सर्वैर्मा शोकं कुरु माधवि वैशम्पायन उवाच ततस्ते समनुज्ञाता द्रुपदेन महात्मना पाण्डवाश्चैव कृष्णश्च विदुरश्च महीपते आदाय द्रौपदीं कृष्णाम् कुन्तीञ्चैव यशस्विनीं सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् सुवर्णकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् जाम्बूनदपरिष्कारान् प्रभिन्नकरटामुखान् अधिष्ठितान् महामात्रैः सर्वशस्त्रसमन्वितान् सहस्रं प्रददौ राजा गजानां वरवर्णिना